मार्कण्डेयपुराणम् अध्यायं 126 एण्ड् ट्वेन्टि सिक्स् मरुत्तचरितवर्णनं क्रौष्टुकिरुवाच भगवन्विस्तरात् सर्वं ममैतत् कथितं त्वया करन्दमस्य चरितमवीक्षिचरितं च यद् अवीक्षितस्य नृपदेर्मरुत्तस्य महात्मनः श्रोतुमिच्छामि चरितं श्रूयते सोदि चेष्टितः चक्रवर्ती महाभागशूरकान्तो महामतिः धर्मविद्धर्मकृत्यैव सम्यक् पालयिता भुवः उवाच सपित्रासमनुज्ञातं राज्ञं प्राप्य धर्मदः पालयामास पिता पुत्रानिवौरसान् इयाज सुबहून्यज्ञान्यथावत् स्वाप्तदक्षिणान् पृथ्वी पुरोहिता देशा धनिर्विण्णो महीपतिः तस्याप्रतिहतं सप्तसु गदिच्चाप्यनवच्छिन्ना स्वपादालजलादिषु ततः प्राप्यधनं विप्र यथावत्स्वक्रियापरः अयजत्स महायज्ञैर्देवानिन्द्रपुरोगमान् इतरे च यथा वर्णा तदुपत्तधनाश्चक्रुरिष्टा पूर्ताधिका क्रियाः पाल्यमानामहितेन मरुतेन महात्मना योस्पर्धा त्रिदशा वासवासिभिर्द्विजसत्तमा तेनादिशयिताः सर्वे केवलं न महीक्षितः यद्विना शतयज्ञाभिसन्धिना ऋक्त्विक्तस्य दुः संवर्तो महात्मा तपसां निधिः सौवर्णो मुञ्जवान्नाम पर्वतसुरसेवितः पादितं तेन तच्छृङ्गम् कृते तस्य महीपते है यखि यज्ञ दिगंज प्रादाश्चता शुभ्र तपसा सर्वचना गाधाश्चाप्य गाय मृत तादत्येनर्शयः सर्वे कुर्वन्तोऽध्ययनं यथा मरुत्तेन समो नाभूद्यजमानो महीतले स दसमस्तं यद्यज्ञे प्रासादाश्चैव काञ्चनाः अमाद्यदिन्ध्रः सोमेन दक्षिणाभिर्द्विजातयः विप्राणां परिवेष्टारश्चक्राद्यास्त्रिदशोत्तमाः यथा यज्ञे मरुत्तस्य तृप्ताः सर्वे महीपतेहे, सुवर्णमखिलं त्यक्तं रक्तपूर्णगृहे प्रासादादिसमस्तं च सौवर्णं तस्य यत्क्रतौ त्रयो वर्णाह्यलभ्यन्त तस्मात् केचित्तथा दधुः तेन त्यक्रेण शिष्ठा ये जनाः पूर्णमनोरथाः तेऽपि यज्ञान्यजन्ते स्म देशे देशे पृथक् पृथक् तस्यैवं कुर्वतो राज्यं सम्यक् पालयदः प्रजाः तपस्वी कश्चिदभ्येत्य तमाहमुनिषत्तम पितुर्मादा तवाहेदं दृष्ट्वा तापसमण्डलं विषाभिभूदमुरगैर्मदोन्मत्तैर्नरेश्वर पितामहस्तेश्वर्यादः सम्यक् सम्पाल्य मेदिनीम् पिता तव तथा तथाशक्तो हित्वा ग्रामं वनङ्गदः तपश्चरणशक्ताहमिह चौर्वाश्रमे स्थिता साकं पश्यामि वैकल्यं तवराज्यं राज्यं प्रशासतः पितामहस्य तेनाभ्युद्यत्पूर्वेषाञ्च ते नृपः नून प्रमत्त भोगु सक्रो वाजिद्रिय चाराधा यदस्तीय दुष्टा दुष्ट न वेत्स यद पाद्युपेदस्तु भुजगदिभा मुनिता सप्तूषिता जलाशयः। स्वेदमूत्रपुरीषेण दूषितं सुश्रुतं हविः अपराधं समुद्दिश्य दत्तो नागबलिश्चिराद् येदे समर्था समर्थामुनयो भस्मीकर्तुं भुजङ्गमान् किन्त्वेषां नाधिकारोऽत्र त्वमेवाधिकारवान् वत्सुखम भूपतिजोगजाप्य नृप अभिषेकजल यमूर्धन विपत काशत्रुर्म शुर्बल कियदे मंत्रिण पक्षे भूपदयो मम कियान् कोशो बलं किं वा कोनुरक्तो जनो मम विरक्तो वा परैर्भिन्नः परेषामपि कीदृशः कस्सम्यगत्र नगरे विषये वा जनो मम धर्मकर्माश्रयो मूढः कस् सम्यगपि वर्तते को दण्ढ्यः परिपाल्य खः के चोपेक्ष्या नरामया सामभेदतया दम्या देशकालमवेक्षता चारांश्च चारयेदन्यैरज्ञादान् भूपतिश्चरैः सचिवादिषु सर्वेषु चरान् दद्यान्महीपतिः इत्यादौ भूपतिर्नित्यम् कर्मण्यासक्तमानसः न येदिनं तथा राज्ञां शरीरग्रहणं न भोगाय पृथ्वी स्वधर्मपरिपालने सम्यक् स्वधर्मं च महीपदे इहक्ते शो महान् स्वर्गे परमं सुखमक्षयं तदेतदवबुद्ध्यस्वहित्वा भोगान्नरेश्वर पालनाय क्षिधे क्लेशमङ्गीकर्तुमिहार्हसि इति वृत्तमृषीणां यद्भ्यसनं त्वयि शासदि भुजङ्गहेतुकम्भूप चारान्धो नापि वत्सि तद् बहुनात्र किमुक्ते दुष्टे दण्डो निपात्यदां शिष्टान् पालय राजं त्वं धर्म षड्भागमाप्स्यसि अरक्षन् पापमखिलं दुष्टैरविनया हृदं समवाप्स्य सन्दिग्धं यदिच्छसि कुरुष्व दन्म सकलं यहाँ पितामहव स्थित ये रोचते वसुदाधिप यीमाकंडेयपुराणे मृतचरवर्णन नाम ओम